ॐ श्रीव्यासगणेशाभ्यां नमः नारायणं नमस्कृत्य नरञ्जैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् विराटपर्वणि चतुर्थोऽध्यायः युधिष्ठिर उवाच कर्माण्युक्तान्युष्माभिर्यानि यानि करिष्यथा मम यथा बुद्धिरुचिता विधिनिश्चयात् पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु सुदपौरोगवैः सार्धं ध्रुपदस्य निवेशने इन्द्रसेनमुखाश्चेमे रधानादाय केवलान् यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिकाः पाञ्चालानेव गच्छन्तु सुदपौरोगवैः सर्वैरपि च वक्तव्यं न प्राग् ज्ञायन्त पाण्डवाः गता ह्यास्मानपाहाय सर्वे द्वैतवनादिति वैशम्पायन उवाच एवं तेऽन्योन्यमामन्त्र्या कर्माण्युक्त्वा पृथक् पृथक् धौम्यमामन्त्रयामासुः स च तान् मन्त्रमब्रवरीत् धौम्य उवाच विहितं पाण्डवास्सर्वं ब्राह्मणेषु सुहृत्सु च याने प्रहरणे चैव तथैवाग्निषु भारत त्वया रक्षा विधातव्या कृष्णायाः फाल्गुनेन च विदितं वो यथा सर्वं लोकवृत्तमिदं तवा विदिते वक्तव्यं सुहृद्भिन्न सुहृद्भिरनुरागतः एष धर्मश्च कामश्च अर्थश्चैव सनातनः अतो अतोऽहमपि वक्ष्यामि हेतुमत्र निबोधत हन्ते मां राजवसतिं राजपुत्रा ब्रवीम्यहं यथा राजकुलं प्राप्य सर्वान् दोषां स्तरिष्यथा दुर्वसं चैव कौरव्या जानता राजवेश्मनि अमानितैर्मानितैर्वा ज्ञातैः परिवत्सरं ततश्चतुर्दशे वर्षे चरिष्यथ यथा दृष्टद्वारो लभेत् द्रष्टुं राजस्वेषु न नभी, वि न विश्वसेत् तदेवासनमन्विच्छेत् यत्र नाभिपतेत्परः यो न यानं न पर्यङ्कं न पीठं न आरोहेत् सम्मतोऽस्मीति सराजवसतिं वसेत् यत्र यत्रैनमासीनं शङ्केरन् दृष्टचारिणः नत्रो न तत्रोपविशेद्यो वै स राजवसतिं वसेत् न चानुशिष्याद्य राजानमपृच्छन्तं कदाचन तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् असूयन्ति हि राजानो जना जनानृतवादिनः तथैव चावमन्यन्ते मन्त्रिणं द्वादिनं वृषा तेषां तारेषु कुर्वीत मन्त्रीं प्राज्ञः कदाचन अन्तःपुराचरा ये च द्वेष्टियानहिताश्च ये विदिते चास्य कुर्वीत कार्याणि सुलधून्यपि एवं विचरतो राज्ञी नक्षत्र जायते क्वचित् गच्छन्नपि परां भूमिप अपृष्ठो ह्यनिभोजितः गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः जात्यन्थैव मन्येत मर्यादामनुचिन्तयन् न हि पुत्रं न तत् नप्तारं न भ्रातरमरिन्दमाः समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः यत्नाच्चोपचरेदेनम् अग्निवद् देववत्विहा अनृतेनोपचीर्णो हि हन्यादेव न संशयः यद्यद् भर्तानुयुञ्जीत तत्तद्देवानुवर्तयेत् प्रमादमवलेपं च कोपञ्च परिवर्जयेत् समर्थनासु सर्वासु हितं च प्रियमेव च संवर्णयेत् तदेवस्य प्रियादपि हितं भवेत् अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च अप्रियञ्चाहितं यत् यत्स्यात् तदस्मै नानुवर्णयेत् नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः अप्रमत्तश्च सततं हितं कुर्यात् प्रियञ्च यत् नास्यानिष्ठानि सेवेत नाहितैः सह संवदेत् स्वस्थानान्न विकम्पेत सराजवसतिं दक्षिणं वाथवामं वा पार्श्वमासीतपण्डितः रक्षिणां ह्यात्तस्राणां स्थानं पश्चाद्विधीयते नित्यं हि प्रतिनिश् प्रतिषिद्धं तु पुरस्तादासनं न च सन्दर्शने किञ्चित् प्रवृत्तमपि सञ्जयेत् अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् अमृषाभिहितं राज्ञां मनुष्येषु प्रकाशयेत् असूयन्ति हि राजानो नरानृतवादिनः तथैव चावमन्यन्ते नरान् पण्डितमानिनः शूरोऽस्मीति न दृप्तः स्यात् बुद्धिमानिति वा पुनः प्रियमेवाचरन् प्रियो भवति भोगवान् ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च यस्य कोपो महाबाधः प्रसादश्च महाफलः कस्तस्य मनसापिच्छेदनर्थं प्राज्ञसम्मतः न चेष्ठौ न भुजौ जानो न च वाक्यं समाक्षिपेत् सदा वातञ्च वाचं च चाचरेच्छनैः हास्यवस्तुषु चान्यस्य वर्तमानेषु केषुचित् नातिगाढं प्रहृष्येत् न चाप्युन्मत्तवद्वसेत् न चातिधैर्येण चरेत् गुरुतां हि व्रजेत्ततः स्मितं तु मृदुपूर्वेण दर्शयेत् प्रसादजं लाभे न हर्षयेद्यस्तु न व्ययेत् न असम्मूढश्च यो नित्यं सराजवसतिं वसेत् राजानं राजपुत्रं वा संवर्णयति यः सदा अमात्यः पण्डितो भूत्वा सचिरं तिष्ठते प्रियः प्रगृहीतश्च यो माच्यो निगृहीतस्त्वकारणैः न निर्वदति राजानं लभते सम्पदं पुनः प्रत्यक्षञ्च परोक्षं च गुणवादी विचक्षणः उपजीवी भवेद्राज्ञो विषये योपि वा भवेत् अमाच्यो हि बलाद् भोक्तुं राजानं प्रा प्रार्थयेतयः न स निष्ठे चरं न सतिष्ठे चरं स्थानं न स तिष्ठे श्रेयः सदात्मनो दृष्ट्वा परं राजा परं राज्ञानसंवदेत् विशेषयेच्च योग्यभूमिषु सर्वदा अम्लानो बलवाञ्छूरच्छायेवानुगतः सदा सत्यवादीमृदुर्दान्तः सराजवसतिं वसेत् अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः अहं किं करवाणीति सराजवसतिं वसेत् आन्तरे चैव बाह्ये च राज्ञा यश्चाथ आदिष्टो नैव कम्पेत सराजवसतिं वसेत् यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् दुःखेन ना सुखमन्विच्छेत् सराजवसतिं वसेत् समवेशं न नोच्चैः सन्निहितो वसेत् न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत। न कर्माणि नियुक्तः सन्धनं किञ्चिदपि स्पृशेत् प्राप्नोति हि हरन् द्रव्यम् यदि वा वधम् यानं वस्त्रमलंकारं। यच्चन् यत् तदेव धारये नित्यमेवं प्रियतरो भवेत् एवं संयम्यचित्तानि यत्नतः पाण्डुनन्दनाः संवत्सरमिमन्तात तथा शीला बभूषुता अधः स्वविषयं प्राप्य यथा कामं करिष्यथा युधिष्ठिर उवाच अनुशिष्टास्म भद्रन्ते नैतत् वक्तास्ति कुन्तीमृतो मातरं नो विदुरं वा महामतिं यदेवानन्तरं कार्यं तद्भवान् कर्तुमर्हति णायास्य दुःखस्य तारणायास्य दुःखस्य प्रस्थानाय जयाय च वैशम्पायन उवाच एवमुक्तस्ततोराज्ञा धौम्योध द्विजसत्तमः अकरोद्विधिवत् सर्वं प्रस्थाने यद्विधीयते तेषां समिध्यतानग्निन् मन्त्रवच्च जुहावसः समृद्धिवृद्धिलाभाय पृथिवीविजयाय च अग्नेन् प्रदक्षिणीकृत्य ब्राह्मणांश्च तपोधनान् याज्ञसेनीं पुरस्कृत्य षडेवाध प्रववृजुः गतेषु तेषु वीरेषु धौम्योध जपताम्बरः अग्निहोत्राण्युपादाय पाञ्चालानभ्यु पाञ्चालानभ्यगच्छताम् इन्द्रसेनादयश्चैव यथोक्ताः प्राप्ययादवान् स्थानवं स्थानस्वांश्च रथान रथाधानस्वांश्च रक्षन्तः सुखं सुखमूषुः सुसंवृताः रथानस्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः इति श्रीमहाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि धौम्योपदेशे चतुर्थोऽध्यायः सर्वं श्रीगुरुचरणार्पणमस्तु